मार्कण्डेयपुराणम् अध्यायं 54 क्रौष्टुगिरुवाच कदिद्वीपाःसमुद्रा वा पर्वदा वा कदिद्विच कियन्ति चैव वर्षाणि तेषां नद्यश्च कामुने महाभूतप्रमाणं च लोकालोकन् तथैव च पर्यासं च गतिञ्चन्द्रार्कयोरपि ये दत्प्रब्रूहि मे सर्वं विस्तरेण महामुने मार्कण्डेय उवाच शदार्थकोटिविस्तारा पृथिवी कृशोद्विज तस्याहिस्तानमखिलं कथयामि शृणुष्व तद एते द्वीपामया प्रोक्ता जम्बूद्वीपादयो द्विज पुष्करान्दामहाभागशृण्वेषां विस्तरं पुनः द्वीपात्तु द्विगुणो द्वीपो जम्भुः प्लक्षोधशाल्मलः कुशक्रौञ्चस्तथा लवणेषु सुरासर्पिर्दधि दुग्धोज्जलाब्धिभिः द्विगुणैर्द्विगुणैर्वृद्ध्या सर्वतः परिवेष्टिताः जम्बुद्वीपस्य संस्थानं प्रवक्ष्येऽहं निबोधमे लक्षमेकं योजनानां वृत्तौ विस्तारदैर्ख्यातः हिमवान्हेमकूटश्च ऋषभो मेरुरेव च नीलश्वेदस्तदा शृङ्गि सप्तास्मिन् द्वौ लक्षयोजनायामौ मध्ये तत्र महाचलौ तयोर्दक्षिणधो यौ तु यौ तधोत्तरदो गिरि दशभिर्दशभिर्नूनैः सहस्रैस्तैःपरस्परं द्विसाहस्रोच्छ्रयात् सर्वे तावद्विस्तारिणश्च ते दशभिर्दशभिर्नूनैः सहस्रैस्तैःपरस्परं द्विसहस्रोच्छ्रयात् सर्वे तावद्विस्तारिणश्च समुद्रान्तः प्रविष्टाश्च षडस्मिन् वर्षपर्वताः दक्षिणोत्तरदो निम्ना मध्ये तुङ्गा वेद्यर्थे दक्षिणे त्रीणि त्रीणि वर्षाणि चोतरे इलावृतं तयोर्मध्ये चन्द्रार्थाकारवस्थितं ततः पूर्वेण भद्राश्वं केलच पश्चिम इलावृत मध्ये तो मेरुक्कनकपर्वत चीतिशाखस्त्रोरा महागिरे प्रविष्ट षोडशाधस्तार्णश शरावसंस्थितत्वाच्च द्वात्रिंशन्मूर्ध्निविस्तृतः शुक्लः पिदोषितो रक्तः प्राच्यादिषु यथाक्रमं विप्रो वैश्यस्तथा शूद्रः क्षत्रियश्चस्य वर्णतः तस्योपरि तथैवाष्टौ पुर्यो दिक्षु यथाक्रमम् इन्द्रादिलोकपालानाम् तन्मध्ये ब्रह्मणः सभायोजनानां सहस्राणि चतुर्दश समुच्छ्रिता अयुतोच्छ्रायास्तस्याद्धस्तथा विष्कम्भपर्वताः प्राच्यादिषुक्रमेणैव मन्दरो गन्धमादनः विपुलश्च सुपार्श्वश्च केदुपादपशोभिताः कदम्बो मन्दरे के, दु के दुर्जम्बुवग्गन्धमादने विपुले च तथाश्वदस्सुपार्श्वे च वडो महान् एकादशशदायामा योजनानामि मेनगाः जठरो देवकूढश्च पूर्वस्यां आनील अनिलनिषधौ प्राप्तौ परस्परनिरन्तरौ निषधः पारियात्रश्च मेरोः पार्श्वे तु पश्चिमे यथा पूर्वौ तथा चैदा वानीलनिषधायतौ कैलासो हिमवांश्चैव दक्षिणेन महाचलौ पूर्व पूर्वपश्चात्यदा वेदा वर्णवान्दर्व्यवस्थितौ शृङ्गवाञ्जाुधिश्चैव तथैवोत्तरपर्वतौ यदैव दक्षिणे तद्वदर्नप्वान्द्यवस्थितौ मर्यादापर्वदाख्येदे कथ्यन्तेष्टौ द्विजोत्तमहिमवद्धेमकूडादि पर्वतानां परस्परम् नवयोजनसाहस्रं प्रागु मेरो मेरोरिलावृदे तद्वदन्तरे वै चतुर्दिशं फलानि यानि वै जम् वा गन्धमादनपर्वते गजदेहप्रमाणानि पदन्ति गिरिमूर्धनि तेषां स्त्रावात् प्रभवदिख्यादा ख्यादा नदी दिवै यत्र जाम्बूनदं नाम कनकं सम्प्रजायते सा परिक्रम्य वै मेरुं मूलं पुनर्नदी विशदि द्विजशार्दूल पीयमाना जनैश्च तैः भद्राश्वेश्वशिराविष्णुर्भारते कूर्मसंस्थितिः वराहकेतुमाले वराहकेदुमालेच मत्स्यरूपस्तथोत्तरे तेषु नक्षत्रविन्यासाद्विषया समवस्थिताः चतुर्ष्वपि द्विजश्रेष्ठग्रहाभिभवपाठकाः यीमार्कंडेयपुराणे भुवनकोश जबूद्वीपवर्णन नाम चुपंचाशोध्याय